दसगं, गुरु तूटिमूणावशकम पापदलाम गु बंधुस्नेहं विजह तव ही कुणयापावेचिताय सकलमी जगद वीक्षमाया विलासं विलासना जन्यात् सति खलु गुण दोषावभूते विधिर्वा व्यासेधो वा कथम् तौ त्वयि निहितमतेर् वीतवैषम्यबुद्धिम् शूदृष्णालोपमात्रे सततकृतदियो जन्तवः तेभ्यो विज्ञानवत्त्वात् पुरुषैह वरस् तज्जनेर्दुर्लभैव तत्राप्यात्मानत्मनः स्यात् सुहृदभिचरिपुर्यस्त्वयिज्ञस्तचेत तबोचित्तेरुपायम् स्मरति स हि सुहृत् त्वत्कारुण्ये प्रवृत्ते कैव न हि गुरुर्लोहवृत्ते सर्वा क्रान्तापि भूमेर्न हि चलति तत सत्क्षमाम् शिक्षयेयम् गृह्णीयामि च तत्तद् विषयपरिचयेप्य प्रसक्तिम् समीराद् व्याप्तत्वम् सात्मनो मे गगनगुरुवचाद् बातु निर्लेपता च स्वच्छस्याम् पावनोऽहम् मधुर उदकवद् वह्निवन्मास्मगृह्णाम् सर्वानीनोऽपि दोषम् तरुषुतमिममाम् सर्वभूतेष्ववेयाम् पुष्टिर्नष्टिकलानाम् सचिनैव तनोर्नात्मनोऽस्तीति विद्याम् तो या दीव्यस्तमार्थाण्डवदपि च नुष्वे कथाम् त्वत्प्रसाध स्नेहाद्व्यादास्तपुत्र प्रणयमृतकपो तायितो मा स्म भुवम् प्राप्तम् प्राश्नन् सखेय श्रुतमपि च युवत् सिन्धुवत्स्यामघाध मा पप्तम् भृङ्गवत्सारभागी भूयासम् किन्तु तद्वद् दनशयनवचान् माहमी च प्रणेशम् तरुण्या गज इव वचया नार्जयेयम् दनौघम् हार्तान्यस्तम् हिमाध्वी हर इव मृगवन् मामुखम् ग्राम्य गीतै नात्या सज्जेय भोज्ये जश इव बडिजे पिङ्गलावन्निराश सुभ्याम् भर्तव्ययोगात् कुरर इव विभ सामिषोऽन्यैर्न वर्ते यत्यक्तमान सुखमतिशिशुवन् निःसहायः शरेयम् कन्याया एकचेषो वलय इव विबो वर्जितान्योन्यगोष त्वच्चित्तो नावबुद्ध्यै परमिषु हृदिव क्ष्मा प्रधाया नगोषम् गेहेष्वन्यप्रणीतेष् बहिरिव त्वम् शपयसि जगदे योर्ननाभात् प्रदीया त्वच्चिन्ता त्वत्स्वरूपम् कुरुत इति दृढम् शिक्षये पेषकारात् विट्भस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्तिम् दत्ते सञ्चिन्त्यमानो मम तु बहुरुजा पीडितोऽयम् विशेष ही हि मे देहमोहम् त्यजपवनपुरदीश यत्प्रेम हेतो गेहे वित्ते कलत्रा दिशु च विवसितास्त्वत्पथम् विस्मरन्ती सोयं वक्ने सुनोवा, वा परमिक परत साम्प्रतम् साक्षिकर्ण त्वग्जिग्वाद्याविकर्षन्त्यवचमतयित कोऽपि न त्वत्पदाब्जे दुर्वारोदेकमोहो यदि पुनरदुना तर्हि निर्शेषरोगान् हत्वा भक्तिम् द्रटिष्टाम् पङ्केरुहे पङ्कजाक्ष नूनम् नानाभवान् ते मुक्तिधम् विप्रदेहम् क्षोत्रेहा हन्त माम शिपविषयरसे पाहि मां मारुदेश कृष्णकृष्णा मुकुन्तजनार्दना कृष्ण गोविन्दनारायणहरे अच्युदानन्त गोविन्तमाधव सच्चिदानन्तनारायणहरे